नवमोऽध्यायः ध्यानम् ओम् बन्धूककाञ्चननिभम्बुजिराक्षमालाम् पाराङ्कुशौचवरदाम् निजबाहुदण्डैः बिभ्राणमिन्दुशकलाभरणम् तृणेत्रम् अर्धाम्बिकेशमनिशम् वपुराश्रयामि ओम् राजोवाच विजित्रमिदमाख्यातम् भगवन् भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् भूयश्चेच्छाम्यहम् श्रोतुम् रक्तबीजे निपातिते चकारशुम्भो यत्कर्म निशुम्भः साति कोपनः ऋशिरुवाच शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानम् महासैन्यम् विलोक्यामर्शमुद्वहन् अभ्यधावन्निशुम्भोत मुख्यया सुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टोऽष्टपुटाः क्रुद्धा हन्तुम् देवीमुपाययुः आचगामहावीर्यः शुम्भोऽपि निहन्तुम् चण्डिकाम् कोपात् कृत्वा युद्धम् तु मातृभिः ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः शररवर्षमतीवोऽग्रम् मेघयोरिव वर्षतोः चिच्छेदास्ताञ्छरांस्ताभ्याम् चण्डिका स्वशरोत्करैः ताडयामास चाङ्गेषु शस्त्रोघैरसुरेश्वरौ निशुम्भो निषिदम् खड्गम् चर्म चादाय सुप्रभम् अताडयन्मूर्ध्निसिंहम् देव्यावाहनमुत्तमम् ताडिते वाहने देवीक्षुणप्रेणासिमुत्तमम् निशुम्भस्याशुचिच्छेदचर्म चाप्यष्टचन्द्रकम् छिन्ने चर्मणि खड्गे च शक्तिम् तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् चक्रे कोपाध्मातो निशुम्भोऽतशूलम् जग्राहदानवः आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् आविद्याथगतांसोऽपि चिक्षेपचण्डिकाम् प्रति साविरेव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् तमायान्तम् दैत्यपुङ्गवम् आहत्य तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातर्यतीव सङ्क्रुद्धः प्रययो हन्तुमम्बिका सरलहस्तथात्युच्चैर्गृहीतपरमायुधैः भुजैरष्टाभिरतुलैर्व्याप्याशेषम् बभौ नभः तमायान्तम् समालोप्य देवी शङ्खमवादयत् ज्याशब्दम् चापि धनुषश्चकारातीव दुःसहम् पूरयामास ककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानाम् तेजोवदविधायिना ततः सिंहो महानादैस्त्याजितेभ महामदैः पूरयामास गगनम गगनम् गाम् तथैव दिशो दश ततः कालीम् तन्निदानेन प्राखनास्तेतिरोहिताः अट्टाट्टहासमशिवम् शिवदूती चकारः तैः शब्दैरसुराहस्रेषु सु शृम्भः कोपम् परम् ययौ दुरात्मम् स्तिष्ठतिष्ठेति व्याजहाराम्बिका यदा पराजयेत्यभिहितम् देवैराकाशसंस्थितैः शुम्भेनागत्यया शक्तिर्मुक्ता ज्वालातिभीषणा आयान्तीवन्निकूटाभासा निरस्ता महोल्कया सिंहनादेन शुम्भस्य व्याप्तम् लोकत्रयान्तरम् निर्घातनिस्वरो घोरोदितवानवनीपते शुम्भमुक्ताञ्छरान् देवी शुम्भस्तत्प्रहिताञ्छन् चिरिच्छेदस्वशरैरुग्रैः शतशोधसहस्रशः ततः सा चण्डिका क्रुद्धाशूलेनाभिजघानतम् सतताभिहतो भूमो मूर्च्छितो निपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः आजघानशरैर्देवीम् कालीम् केसरिनम् तथा पुनश्चकृत्वा बाहूनामलुतम् तनुजेश्वरः चक्रायुधेन दिलीयश्छादयामास चण्डिका ततो भगवती क्रुद्धा चिच्छेदतानि चक्राणि स्वशरे सायकांश्च तानि ततो निशुम्भो वेगेन गदामादाय चण्डिका अभ्यधावत वै दैत्यसेना समावृतः तस्यापतत एवाशु गदाम् चिच्छेदचण्डिका खड्गेन शितधारेण सत शूलम् समाददे शूलहस्तम् हृदिविव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्निःसृतोपरः महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् तस्य देवी प्रहस्यस्वनवत्तरः शिरश्चिच्छेदखड्गेन ततोऽसावपतद्भुवि ततः असुरांस्तांस्त काली शिवदूती तथा कौम शक्ति केचिन्े शुर्मसुरा ब्रह्मी मंत्रूते निरातारीशूलन भिन्ना पेतुस्तरे वाराहीन केचिचूर्णीता भुव खण्डम् खण्डम् च चक्रेण वैष्णव्यादानवाः कृताः वज्रेण चैन्द्रियहस्ताग्रविमुक्तेन तथा परे केचिद्विनेषु रसुराः केचिन्नष्टा महाहवात् भक्षिताश्चापरे काली शिवदूतीमृगाधिपैः ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी देवीमाहात्म्ये निशुम्भवधो नाम नवमोऽध्यायः